मुद्गलपुराणं खण्डम् एय्ट् धूम्रवर्णचरितम् अध्यायं फार्टि त्रि चतुर्थीरहस्यवर्णनम् श्रीगणेशाय नमः देवर्षय ऊचुः एतादृशं गणेशस्य माहात्म्यं मुनिसत्तमा दर्शनस्मरणाद्यं तु सर्वसिद्धिप्रदायकम् जनागणेश्वरस्यैवम् दर्शनं नामकीर्तनं। सकृत्कुर्वन्ति विप्रेषाधवाधिकम् न संशयः ते सर्वे सुखसंयुक्ता भुक्त्वा भोगान् मनोगदान् ब्रह्मभूदान जायन्दे जायन्ते वद तत्रापि कारणम् भृषुण्ड्युवाच अविश्वासेन तेषाम् तु फलमर्धम् गदम् भवेद् अभक्रिया दम्भेन त्रिपदम् तदा अधः फलहीना जना किल न प्राप्नुवन्ति पुण्यं ते सर्वशास्त्रप्रकीर्तितम् अन्यच्च शृणुत पुण्यं पापं समं मदं बलेन तेजसाभावै शास्त्रेष्वत्र न संशयः यथा गणेशनाम्नश्च कीर्तने पुण्यमुत्तमं तथा निन्दादिजं पापमदुलं जायते किल यथा जनाभजन्ते तं बाह्यभावपरायणाः तथा ते तस्य निन्दां वै कुर्वदे पश्यदप्रियाः अन्यच्च कथयिष्यामि संशयस्यापनुत्तये उल्लङ्खनादिजं पापं मानाच्छदगुणं भवेद ज्ञात्वा गणेश्वरं सर्वे कुर्वन्त्युल्लङ्घनं सदा तेन भोगविहीनास्ते गच्छन्ति नरके किल नानाविघ्नसमायुक्ता जन्मजन्मसु ते जनाः भवन्ति नात्र सन्देहो गणेशोल्लङ्घनेन च गणेशमानजं पुण्यं स्वल्पं किं सुखदं भवेद उल्लङ्घनबलेनैव हदं मन्दमिव प्रियाः यथा विस्मृतिभावेन विस्मृतो गणनायकः विधेर्यज्ञे भवन् सर्वे जलरूपाः सुरास्तथा महातपोयुताभिश्च स्त्रीभिर्देवाः पुनः कृताः स्वल्पोल्लङ्कनजं पापं पश्यध्वं तु सुरर्षयः अधो दुःखयुतालोका गणेशस्मरणादिभिः गच्छन्ति नरके युक्ताः गणेशोल्लङ्घनादिभिः अन्यच्च कथयिष्यामि कर्मशास्त्रे प्रकीर्तितं प्रत्यवायाकुलं सर्वं सर्व विविधम् पुरा प्रत्यवायमनादृत्य कर्म कुर्वन्ति मानवाः ते सर्वे सकलं पुण्यम् प्राप्नुवन्ति न निश्चितम् इत्यादि कृधा विघ्नेश्वरेण च अखण्डः क्रीडनार्थम् कथयितुं नैव शक्यते अपारमहिमायुक्तम् आहात्म्यं गणपस्य च तस्य कण्ठनभावार्थं निन्दादिकं चकारसः अदो गणपतिं देवाभजध्वं यत्नसंयुधाः मुनयस्तेन सम्पूर्णं गणपम् परमाप्स्यथ सुरर्षय ऊचुः गणेशो योगरूपोऽयं कथं पुंभावमाश्रुदः योगिन् वदतस्य चरित्रकं भृशुण्ड्युवाच यथा ब्रह्ममहाभागा नपुंसकप्रवाचकम् स्त्रीपुंभावविहीनं तदेकमार्गपरं मदं स्त्रीपुन्यपुंसकं सर्वं त्रिविधं त्रयवाचकम् आत्मातुरीयसंज्ञश्च पुंवाचकस्त्रिवर्जितः जनानां कथने वेदास्तं वदन्ति गजाननं जगमार्गाश्रितं सर्वं कथने नाभवन् क्षमाः अतोऽयं गणनाधस्थायि पुंभावात्मक उच्यते यथा योगादिका शब्दास्तथा देवादयो मदाः वामाङ्गं प्राकृतं रूपं सिद्धिस्तस्य महात्मनः दक्षिणाङ्गं बुद्धिपुरुषवाचिका तयोर्योगे गणेशानो योगकारो न संशयः पुम्भावादियुतोयं न तेभ्यः देवर्षय ऊचुः चतुर्थी गणनाथस्य प्रियात्यन्तं तिधिः परा कथं रिक्दा तु सा प्रोक्ता विवाहादौ विवर्जिता साक्षान्मङ्गलमूर्तेश्च तिधिर्मङ्गलदायिका सर्वदा रिक्तभावेन कथं युक्ता बभूवसा भृष्युण्ड्युवाच पक्षयोरुभयोः संस्था चतुर्थी गणपप्रिया व्रता नामादिभूता वै गणेशप्राप्तिकारिका व्रतं चतुःप्रदं पूर्णं सर्वसिद्धिप्रदायकम् नित्यवन्मानवैः सर्वैकर्तव्यं चाधिरूपकम् तदा च दुःपदार्थास्तैर्लभ्यन्ते नात्र संशयः नो चेत्कर्मकृतं सर्वं निष्फलं जायते नरैः अधः सम्मदा सद्भि सर्वकार्येषु देवपाः व्रतभङ्गो न कर्तव्यो नानाकार्यपरैरपि विवाहादिषु कार्येषु भोजनं क्रियते जनैः नानाविषयसङ्गश्च व्रतं तत्र कुतो भवद अधः संशयहीनास्ताम्भजन्ते व्रतमार्गदः मङ्गलायतनां पूर्णां चतुर्थीं सर्वसिद्धिदां जन्ममृत्युयुतैलोकैः पूरितं सकलं जगद चदुर्थी व्रतकर्तारो जन्ममृत्युविवर्जिताः त्यक्त्वा कर्मफलं कर्म, कर्म गच्छन्ति निजलोकगम् सर्वसङ्कटही नास्ते भुक्त्वा भोगान् bhavantyeva ब्रह्मभूता भवन्त्येव चतुर्थी व्रतकारकाः व्रतमात्रेण रिक्तं स कुरुदे विश्वमञ्जसा तेन रिक्दा समाख्यादा चतुर्थी नात्र संशयः विश्वं त्यक्त्वा गणेशानं गच्छन्ति व्रतकारिणः तेन रिक्तं जगत् सर्वं भवते मुनयो मराहा नान्यतिथि समादेवी मदारिक्ता चतुर्थिका ब्रह्म भूयप्रदादृत्वात् सर्वेभ्यः सुखदायिका ये तत्सर्वं समाख्यागं गणेशस्य महात्मनः रहस्यं व्रतमुख्यस्य किं भूय श्रोतुमिच्छति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते चतुर्थी रहस्य वर्णनं नाम त्रिचत्वारिंशोऽध्यायः ओ